श्रीभागवतसङ्ग्रहम् देवङ्गुडिग्रामाभिजनेन मायुरनिवासिना ब्रह्मश्री शिवरामकृष्णशास्त्रिणा रचितम् श्रीभागवतसङ्ग्रहम् अदप्रथमस्कन्धः चरणं करणं मुक्तेस्तरणं संसारसिन्धुमग्नाम् शरणम् भवदा श्रीमद्गुरुचरणानां प्रसन्नहृदयानाम् कलिना बलिना किलीकृतेऽस्मिन् समये वैदिकधर्मरक्षणाय धृतभागवतस्वरूप अद्य पुरुषो मे हृदयं विश्येत्प्रसन्नः यज्ञस्वामिमकीन्द्रां स्तान् सर्वदर्शनपारगान् नत्वा विद्यागुरून् कुर्वे श्रीभागवतसङ्ग्रहं यतो जन्मादिजगदो यत् ज्ञादृज्ञानदं विधेहे यस्मिन्नरोप्यते सर्गस्तध्यायामि परमहः यत्र भागवतो धर्म प्रोच्यदे ब्रह्मचामलं वासुदेवो यच्छ्रुतेर्हृद्विषेद्धरिः तद्वेदकल्पकतरोः प्रादुर्भूदं तद्वेदकल्पकतरो फलम् पिबद हे मर्त्या शुका स्वादिदमद्भुतम् नैमिष्ये शास्त्रसारादीन् महर्षिभिः शुकाचार्यो रमेशादीन् प्रणम्यमुदितोऽब्रवीद भक्तियोगशास्त्रसारो भगवानेक एव हि सृष्ट्यादिकुरुदेवार्यम् वशीकृतगुणत्रयः अवतारा जगत्क्षेमकरा धर्मस्य चाश्रयः कलौ भागवतग्रन्थसुखेनोक्तः परीक्षिते श्रीमद्भागवदारम्भपरीक्षि जननादिकं पृष्ठसु दशौनकेन तदुपोद्गादमब्रवीद वेदान्व्यस्यतिहासादीन्व्यासकृत्वाप्यतुष्ठतीः देवर्षिणा स्मारयदा कर्तव्यम् बोधितो भवद पूर्वकल्पे शूद्रजन्मा महद्वीक्षणगोचरः यत्प्रसादाद्ब्रह्मपुत्रो जादोऽहम् प्रलयात् परम् यत्कीर्तनम् सर्वविधपापजातनिवर्तकं तस्य सर्वेश्वरस्यैव गुणान्वर्णयमुख्यतः तपःसफलमे दद्वैवाचो बुद्धे श्रुतस्य च गुणानुवर्णनं विष्णोर्मनः शान्तिकरं सुखम् एवमुक्तो नारदेन व्यासो भक्तिसमाहितः भक्तिज्ञानविरागाणां वर्धकं ग्रन्थमुत्तमं पदे पदे भगवतः चक्रेक्षेमाय जगद श्रीमद्भागवदाभिधम् अवशिष्टकौरवाणां समरे द्रौणिराग्रहाद् निहत्य द्रौपदी पुत्रानर्जुनेन पराजितः तेन मुक्तं ब्रह्मशिरोहन्तुं गर्भगबालकम् आगतं भगवान् कृष्णश्चक्रेण विनिपात्य च कुलं संरक्ष्य पाण्डूनां भूमिर्भारं व्यपोह्य भीष्म कुन्द्या स्तुतो भीष्ममुक्तिप्रदोघाद्वारका सर्वेश्वर सर्वेश्वरसर्ववन्द्यस्वस्ति सौभाग्यवर्धकः युद्धं स्तुतः योगेश्वरो हरिः कृष्णेन रक्षितो गर्भादवतीर्णशुभे दिने द्विजैरुक्तो विष्णुराध परीक्षिदिति पप्रथे तीर्थयात्रां समाप्याधविदुरो गृहमागतः ज्येष्ठस्योत्पाद्य वैराग्यं तेन सागमगाधरिम् अर्जुना दुःखिता श्रुत्वा कृष्णान्तर्ध्यानमद्भुतम् राज्ये राज्येषिच्य पौत्र जम्मद कलि जिस्तवादिक स्थल परीक्षिभगव धर्मे पालय ये कदा मृगयां याद क्षुत्पा साकुला मुनेरादिपाप्य शुद्धान्धकरणोऽभवद तत्स्कन्धेयम् मृदं न्यस्य पश्चात्तत्पुत्रशापजाम् तक्षकात्स्वमृतिम् श्रुत्वा धीर सर्वैषणाम् जहौ राज्ये पुत्रं समास्ताप्य देवनद्यास्तडम् गतः प्रायोपविष्टस्तत्काल आगदा नब्रवीन्मुनीन् तक्षका सप्तमदिने मृत्युर्ममभविष्यदि मास्तु तस्य प्रतिकारप्रोच्यतां मोक्षसाधनं एवं पृष्ठास्तु मुनय्य स्वं स्वं प्रोचुर्मदं पृथक् द्वारकानाथ कृपयागाचुखो मुनिः व्यासात् भागवदाध्येदा प्रशान्तहृदयस्तुतिः पृष्ठो राज्ञा मोक्षहेदुं तुष्टप्रोवाच तत्त्वविद इति प्रथमस्कन्धः